श्रीकरये नमः अत द्वाविंशोऽध्यायः श्रीशुक मित्रे मित्रेयुश्च दिवो दासा शबनस्तत्सुतो नृपान् सुधासः सह देवोतसोमको जन्तु जन्म तस्य पुत्र सतं तेषां द्रौभते तस्य दृष्टद्युम्नाधाय दृष्टद्युम्ना दृष्टकेतोर्भाम्या पञ्चालका इमे योजमीडसुतोहन्य रुषः संवरणस्ततः तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः परीक्षित् असुधनुर्जग्र्निषधाश्व कुरोसुतः सुहोत्रो भूत् सुधनुश्चवनो ती वसुस्तस्योपरिचरो बृहदत्रमुखास्ततः कुशाम्ब मत्स्य प्रत्यग्र चेति भात्याश्च चेतिपाः बृहद्रतात् कुसाग्रो भूत् ऋषभस्तस्य तत्सुतः जज्ञे सत्यहितोपत्यं पुष्पवानस्ततः सुतो जगुः अन्यस्यां चापि भार्यायां सकले बृहद्रतात् ते मात्र बहिरुसृष्टे जरया चाभिसन्धिते जीव जीवेति क्रीडन्त्या जरा सन्तो भवत् सुतः ततश्च स कदेवो भूत् सोमापीर्यश्रुतश्रवाक ततो विधूरतस्तस्मात् सार्वभौमस्ततो भवत् जयसेनस्तत्तनयोरादि कोतो युतो ह्यभूत ततस्य क्रोधनस्तस्माद्देवातिथिरमुष्यचीभोत्प्रतिपस्तस्य ती चात्मजः देवापि सन्तनुस्तस्य चात्मज पितृराजं परित्यज्य देवापि स्तुवनं गतः अभवश्चन्तनू राजा प्राङ्महाभिष सञ्जितः यं यं कराभ्यां स्पृशति जीर्णम् यौवनमेदि सः शान्तिम् नाप्नोति चैवाग्र्यम् कर्मणा तेन सन्तनुः समाद्वादश तत्रा जेन वर्ष यथा विभुः राजं देह्य ग्रजायासो पुराष्ट्रविवृद्धये एवमुक्तो धिजैर्ज्येष्ठं चन्दयामास शोब्रवीत् तन्मन्त्रीप्रहितैर्विप्रैर्वेधात् विप्रं शितो गिरा वेदवाद अतिवादान्वै तधा देवोपवर्षः देवापेर्योगमास्ताय कलाभक्राममाश्रितः सोमवंशे कलौ नष्टे कृधा तौ स्थापयिष्यति भाग्लिका सोमधत्तो भूद्भूरिर्भूरिश्रवास्ततः सलश्च सन्तनोरासीद् गङ्गायां भीष्म आत्मवान् सर्वधर्मविधां श्रेष्ठा महाभागवतः कविः वीरयुधाग्रणीर्येण रामोऽपि युदितोषितः सन्तनोर्दासकन्यायां जज्ञे चित्राङ्गतः सुतः विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गतो हतः यस्यां पराशरात् अवतीर्णो हरे कलां मुनि कृष्णो यतोऽहमिदमद्यगां हित्वा स्वशिष्यान् पैलादीन् भगवान् भातरायणः मह्यं पुत्राय शान्ताय परं गुह्यमिदं जग विचित्रवीर्योथो वाहकासिराजसुते बलात् स्वयंवरात् उपानीतेऽम्बिकाम्बालिके वुभे तयोरासक्तकृतयो गृहीतो यक्ष्मणामृतः क्षेत्रे प्रजस्य वै भ्रातुर्मात्रोक्तो भातरायणः धृतराष्ट्रं च पाण्डुं च वितुरं चाप्यजीजनत् गान्धार्यान् धृतराष्ट्रस्य जज्ञे पुत्र तत्र धुर्यो धनो ज्येष्ठो दुश्शला चापि कन्यकां सपान्मयितुनरुद्धस्य पाण्डौ कुन्त्या महारथाः जाता धर्मा निलेन्द्रेभ्यो युतिष्ठिरमुखास्त्रयः न कुलस्सगदेवस्य माद्र्यां नासत्यधश्रयोः द्रौपद्यां पञ्च पञ्जभ्य पुत्रास्तेऽपि तरोभवन् युतिष्ठिरात् प्रतिविन्द्यश्रुतसेनावृकोधरात् अर्जुनाश्रुतकीर्तस्तु सतानीकस्तु नाकुलिहे श्रुतकर्मा तथा परे युधिष्ठिरार्तुपौरव्यां पौरव्यां भीमसेनात् हिडिम्बायां काल्यां सर्वगतस्ततः सगदेवात् तो तु विजयासूतपार्वती करेणो मध्यां न कुलो निरमित्रं तदार्जुनः इरावन्तम्बुलोप्यां वै सुतायां मणिपुरपतेशोऽपि तत्पुत्रपुत्रिकासुतः तव तातस्सुपत्रायम् अभिमन्युरजायत सर्वातिरथजित्विर उत्तरायां ततो भवान् परीक्षीणेषु कुरुषो द्रौणे ब्रह्मास्त्रतेजसां त्वं च कृष्णानुभावेन स जीवो मोचिदोऽन्तकात् तवेमे तनयास्तात जनमे जयं पूर्वकाः श्रुतसेनोऽपीमसेनमुग्रसेनस्य वीर्यवान् जनमे जयस्त्वां विधित्वा तक् तक्षकान्तिधनं गतं सर्पान् वै सर्पया गाग्नौ सहोष्यतिरुषान्वितः कावे कावशेयं पुरोधायतुरं तुरगमेधयाट् समन्तात् पृथ्वीं सर्वां जित्वा यक्षति शाध्वरैः तस्य पुत्रः तानीको याज्ञवल्क्यात्रयीं पठन् अस्त्रज्ञानं क्रियाज्ञानं सौकनात् परमेष्यती सकस्राणीकस्ततः पुत्रस्ततः सैवाश्वमेधजः असीम कृष्णस्तस्यापि नेमि चक्रस्तुतस्तुतः गजाक्वये हृते नद्या कौ कौसाम्भ्यां साधु भत्स्यती उक्कस्ततश्चित्ररतस्तस्मात् कविरतस्तुतः तस्माच्च वृष्टिमांस्तस्य सुषेणोतमहीपतिः सुनीतस्तस्य भविता नृचक्षुर्यत् सुखी नलवस्तुतस्तस्मात् मेधावी सुनयात्मजहान् नृभञ्जयस्ततो धूर्वस्तिमिस्तस्माज्जनिष्यतिमे बृगत्रतस्तस्मात् सतानीकस् सुधासजहान् सतानीका दुर्दमनस्तस्यापद्यं वहीनरः दण्डपाणिर्निमिस्तस्य क्षेमको भविता नृपः ब्रह्मशत्रस्य वैप्रोक्तोवं प्रोक्तो वंसो देवर्षि सत्कृतः क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौः अथवा गतराजानो भवितारो भविता सगदेवस्य मार्जारिर्य श्रुतश्रवाकोयुतायुस्तस्यापि निरमित्रोत तत् सुतः सुनक्षत्र सुनक्षरत्रात् भविष्यति क्षेमोत सुव्रतस्तस्माद्धर्मसूत्रः द्युमःोतसुमतिशुभलो जनिता ततः सुनीतस्सत्यजिततस्विश्वजित्यत्रिभुञ्जयः भार्हद्रताश्च भूपालाभाव्या साकस्रवत्सरम् इति श्रीमद्भागवते महापुराणे नवमस्कन्ते द्वाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविंदा, गोविंदा, सदगुरुनाथ महाराज की जय